श्रीमद्भागवत् महापुराणं दसंस्कन्ध षट्पञ्चाशत्तमोऽध्यायः आसीत्तदष्टाविंशाः मितरेतरमुष्टिभिः वज्रनिष्पेशपरुषैरवीं द्रवीशं महन्महर्निशं कृष्णमुष्टिविनिष्पात निष्टिविष् निष्पिताङ्गोरुबन्धन तेन सत्त्वस्मिन्नगात्र समाहाति विस्मितः जाने त्वां सर्वभूतानां प्राण ओजसहो बलं विष्णुं पुराणपुरुषं प्रभुविष्णो मधीश्वरं तं हि षष्टा सृजानामपि अत्ययसन् कालकुले तामीश पर आत्मा तथात्मनाम् यस्यै सदुत्कलित रोषकटाक्ष मोक्षै वर्त्मादिसंक्षुभितं नक्रतिमिङ्गिलोऽधि शेतोकृतं स्वयसम् उज्ज्वलिता च लङ्कारक्ष शिरांसि विभे त्रिसूक्ष्तानि ऋविज्ञातविज्ञानं वृक्षराजानमच्युतः व्याजहार महाराज भगवान् देवकीशतः अभिमृश्यारविन्दाक्षपाणिना शङ्करेण तम् कृपया परया भक्तं प्रेमगम्भीर्या गिरा मणिहेतोरिह प्राप्ता वयवृक्षपते बिलम् मिथ्याभिशापम् प्रविजन्नात्मनो मणिना मुना इत्युक्त्वा कन्यां जाम्बुवतीं मुदा अर्हणार्थं शमणिना कृष्णायोपजहारः अदिष्ट्वा निर्गमं शौरैः प्रविष्टस्य बिलं जना प्रतीक्ष द्वादशाहारि दुःखिता स्वपुरं ययौ निशम्य देवकी देवी रुक्मिण्यानकुन्दुभि श्रीयो ग्यातियो शोचान् बिलात कृष्णमनिर्गतम् सत्रायितं सपन्तस्ते दुःखिता द्वारकौकश उपतस्थुर्महामायां दुर्गां कृष्णोपलब्धये तेषां तु देव्योपस्थानात् प्रत्यादिष्टा शिषाचस्र च प्रादुर्बभूवसिद्धार्थ सुधारो इहर्षयन् हरिः उपलभ्य शिशिके संवृतं पुनरिवागतं स पत्न्यामलिग्रीवं सर्वे जात महोशवाः तद्राजितम् समाहूय सभायां राजसन्निधौ प्राप्तिं चाख्याय भगवान् बलिं तस्मै न वेदयत् रत्नं चातिवेडितो रत्नम् गृहीत्वा वाङ्मुखस्ततः अनुतप्यमानो भवनम् अगमन्सेन पाप्मना सोऽनुध्यायस्तदेवाघं बलवद्वे कथं यदाम्यात्मरज प्रसीदेत वाद्युतकथं किं कृत्वा साधुमय्यम् स्यान्न सपे वा जनो यथा अदीर्घदर्शनं छिद्रं मूढं द्रविणलोरूपम् दासे दुहितरं तस्मे श्रीरत्नं रत्नमेव च उपायोऽयं समीचीन तस्य शान्तेन चान्यथा एवं व्यवसितो बुद्ध्या सत्रादिश्वसुतां शुभम् मणिं च स्वयमुद्यम्य कृष्णायोपजहार ताम सत्यभावां भगवानुपयेमे यथाविधि बहुभियाचितां शीलरूपाौदार्यगुणान्वितां भगवानाह्नमणिं प्रतीक्षामो वयं नृप तवास्तां देवभक्तस्य वयं च फलभागिनः श्रीमत श्रीमद्भागवते महापुराणे परं हंसां शयितायां तसंस्कन्दे वित्रार्थे शमन्तकोपाख्याने षट्पञ्चाशत्तमोऽध्यायः